श्रीमद्भागवतमहापुराणं द्वादश अष्टमोध्यायः अष्टमोऽध्यायः क्रीडन्त्या पुञ्जकस्थाल्याः कन्दुकैस्तनगौरवात् दृशमोद्विग्नम् अध्याया केशमन् श्रीशिसंसृजः इतस्ततो भ्रमदृष्टे चलन्त्या अनुकन्दुकम् वायुर्जहारतद्वाससूक्ष्मं त्रुटितमेखलां विससर्ज तदा बाणं मत्वा तं शितं स्मरः सर्वं तत्राभवन्मोघाम् अनिशस्य यथोद्यमः ता एत्थम् अपं कुर्वन्तो मुनेस्तेजसा मुने दह्यमानानिवृतुः प्रबोध्या हि विवार्भकाः इतीन्द्रानुचरे ब्रह्मन्धर्षितोऽपि महामुनिः यन्नागादहमो भावं न तच्चित्रं महस्तु ही शगणं भगवान् स्वराट् श्रुत्वानुभावं ब्रह्मरसे विस्मयं समुगात्परम् तस्यैवं युञ्जतश्चित्तं तपः स्वाध्यायसंयमैह अनुग्रहाया विरासीन्नरनारायणो हरिः तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौरौ रघुवल्कलाम्बरौ पवित्रपाळे उपवीतकं त्रिवेकमण्डलं दण्डमृजुं च वैष्णवम् पद्माक्षमालामुतजन्तुमार्जुनं वेदं च साक्षा तप एवरूपिणौ तपतडी पिशंगरोचिषा प्रांशु दधानौ विविधर्षभार्जितौ देवै भगवतो रूपे नरनारायणावृषे दृष्ट्वोत्थायादरेणोच्चैमाङ्गेन दण्डवत् स तत्सन्दर्शनानन्दनिवृत्तात्मेन्द्रियाशयः तिष्ठरोमाश्रुपूर्णाक्षो न सेहेताबुदीक्षितुम् उत्थाय प्राञ्जलिप्रण्भ औशुक्यादाश्लीषन्निव नमो नमेति सानौ बभासे गदगदाक्षरः तयोरासनमादाय पादयोरवनिद्य च अर्हणेनानुलेपेन धूपमालैरपूजयत् सुखमासनमासीनो प्रसादाभिमुखो मुने पुनरानम्यपादाभ्यां गरिष्ठाविदुमब्रवीन् मार्कण्डे उवाच किं वर्णये तव विभो यदुदीरितोसु संस्पन्दते तमनु वाङ्मन इन्द्रियाणि स्पन्दन्ति वैतनुभृताम् अज सर्वयोश्च स्वप्साप्यथापि भजताम् असि भावा बन्धुः मृत्ति इमे भगवतो भगवत् श्रीलोक्याः क्षेमाय तापविरमाय च मृत्युजेत्यये नानाभिभर्षवितुं मन्नतनुर्यतेदम् दृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः तस्यावितु सरचिरे सुतरङ्घ्रिमूलम् यः सं न कर्मगुणकालरुजस्पसन्ति यद्वै स्तुवन्ती निनमन्ती यजन्तभिक्ष्मम् ध्यायन्ति वेद हृदया मुनियस्तदाब्धै नानं तवाङ्घ्रं पनियादवं क्षेमं जनस्य परितोभिय ईश विद्मः ब्रह्मा कालासते किमुत तन्कृतभौतिकानां तद्वै भजामृतं धियस्तव पादमूलं हि त्वेदमात्मच्छदि दे चात्मगुरोपरस्य mm -hmm. देहाद्यपार्थमसतन्त्यम् अभिज्ञमात्रं विन्देतते तर्हि सर्वमनीषितार्थम् सत्त्वं रजस्तम् इति स तवात्मबन्धो मायामयासितिलयोदयहेतवोस्य लीलाधिता यदपि सत्त्वमयि प्रशान्त्यै नार्येण व्यसनमोहभियस्य च याभ्यां तस्मात् तवेह भगवन्नथ तावकानां शुक्लां तनुं सदयितां कुशला भजन्ति यस्मात्मता पुरसरूपमुशन्ति सत्त्वं लोको यतो भयमुतात्मसुखं न चान्यत् तस्मै नमो भगवते पुरुषाय भुम्ने विश्वाय विश्वगुरवे परदेवताये। नारायणाय ऋषिये चरणोत्तमाय हंसाय संयतगिरे निगमेश्वराय यं वै न वेदवितथाक्षपथैभ्रमद्भिः सन्तं सखेष्वशुषु हृद्यपि दिक्पथेषु तन्माययावृतमति सौयैव साक्षाद् आद्यस्तवाखिलगुरोरुपसाद्यवेदं यद्दर्शनं निगमात्मरः प्रकाशं मुह्यन्ति यत्र कवयोजपरायतन्तः तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् एते श्रीमद्भागवते महापुराणे पारमहंस्यां सहितायां द्वादश